श्री गणेशाय नमः श्रीगौरीशङ्कराभ्यां नमः अथ श्री शिवमहापुराणे विद्येश्वरसंहितायां वीशोध्याय वैदिकपार्थिवपूजनप्रकारः श्रोत उवाच अथ वैदिकभक्तानां पार्थिवाच पार्थिवा, निगद्यते वैदिकेनैव मार्गेण भुक्तिमुक्ति प्रदायिनी सूत्रोत्तर सूत्रोक्तविधिना स्नात्वा सन्ध्यां कृत्वा यथाविधि ब्रह्म यज्ञम् विधायाधो ततः तर्पणमाचरेत् नैत्यं सकलं ग्रामम् विधाय अनन्तरम् शिवस्मरणपूर्वं हि भस्मरुद्राक्षधारक वेदोक्ताविधिना सम्यक् सम्पूर्ण फलसिद्धये पूजयेत्परया पार्थिवं लिङ्गोत्तमम् नदीतीरे तडागे पर्वते करणेऽपि पिचे शिवालये शुचोदेशे पार्थिवार्चा विधीयते शुद्ध प्रदेश सम्भूताम् मृदमाहृत्य यत्नतः शिवलिङ्गं प्रकल्पेत सावधानतया द्विजः विप्रे गौरा स्नु बाहुये पीतवर्णका वैश्य कृष्णा पाददाते यथा यत्र वा भवेत् सङ्गृह्य मृत्तिकाम् लिङ्ग निर्माणार्थम् प्रयत्नतः अतीव शुभदेशे च स्थापयेत्ताम् मृदम् शुभाम् संशोध्य च जलेनापि पिण्डीकृत्य शनैः शनैः विधीयेत शुभम् पार्थिवं वेदमार्गतः तथा पूजयेत् भक्त्या भुक्तिमुक्तिफलाप्तयेत् तत्प्रकारम् अहं वच्मि ऋणत्वं संविधानतः नमः शिव य मन्त्रेण चन्द्रव्यं च प्रोक्षयेत् भूरसीति च मन्त्रेण क्षेत्रसिद्धिं प्रकारयेत् आपोस्मान मन्त्रेण जल संस्कारमाचरेत् नमस्ते रुद्रमन्त्रेण फाटिका बन्धमुच्यते शम्भवायेत् मन्त्रेण क्षेत्रशुद्धिं प्रकारयेत् कुर्यात् पञ्चामृतस्यापि नमः पूर्वेण प्रोक्षणम् नीलग्रीवाय मन्त्रेण नमः पूर्वेण भक्तिमान् चरेशकरलिङ्गस्य प्रतिष्ठापनमुत्तमम् भक्तितते तत् ते रुद्रायेति च मन्त्रतः आसनं रमणीयं वै दैयाद् वैदिकमार्गकृत् मानो महन्तमिति च मन्त्रेणावाहनं चरेत् याते रुद्रेण मन्त्रेण संचरेदुपवेशनम् मन्त्रेण यामिजूमिति न्यासं कुर्यात् शिवस्य च अद्य वोच दिते प्रेम्णा अधिवासं मनुनाचरेत् मनुनासो जीव इति देवतान्यासमाचरेत् अधो यो सर्पतीति नमस्तो नीलग्रीवाय इति पाद्यं मनुनाहरेत् अर्घ्यं च रुद्रगायत्र्या आचमनम् त्यम्बकेण च पयः पृथिव्यामिति च पयसा स्नानमाचरे दधि दधि स्नानं च कार्येत् घृते स्नानं खलु घृतम् गुर्त घृतवा वेति मन्त्रतः मधुवाता मधुरक्तम् मधुमान्न मधुकण्ड स्नपनं प्रोक्तम् इति पञ्चामृतम् स्मृतम् अथवा पाद्यमन्त्रेण स्नानम् पञ्चामृतेन च स्मानस्तोक इति प्रेम्णा मन्त्रेण कटिबन्धनम् नमो धृष्णवे इति वा उत्तरेयम् च धापयेत् या ते हेतिरिति प्रेम्णा पृचतुष्केन शिवाय विधिना भट् चरेभत्र समर्पणम् नमस्वभ्य इति प्रेम्णा गन्धं दद्यात् ऋचा सुधि नमस्तक्षभ्य इति च अक्षतान् मन्त्रेण चार्पयेत् नमः पाल्याय इति पुष्पं मन्त्रेण चार्पयेत् नमः प्रण्याय इति वा सर्वं तत्र समर्पणम् चेति धूपं दद्याद् यथाविधि दीपं दद्याद् यथोक्तं तु नमः शवयितृचा नमो ज्येष्ठाय मन्त्रेण दद्यात् नैवेद्यमुत्तमम् मनुनात्रम् न कमिति पुनरचमनम् स्मृतम् इमारुद्रा येतिरुचा कुर्यात्फलसमर्पणम् नमो व्रज्या येतिरुच सकलं शम्भवेपयेत् मानो मान्तमिति मान स्केटी तत मंत्रे दशा क्षते रुद्रंपूज हिण्य गर्भच् दक्षिण हि समस्ेति मंत्रेण्यभिषेक चरेदु दीपमंत्रेण वो नीराजन विधि चले पुष्पाजलिम चलेद् इमा रुद्राय च त्रिजा मानो महान्तम् इति च चरित्रान्यप्रदक्षिणाम् मानस्तोकेति मन्त्रेण साक्षाङ्गम् प्रणमेत् सुरी एषतेति मन्त्रेण शिवमुद्राम् प्रदर्शयेत् यतो यत इत्यभयम् त्यानाख्यान्तम्बकेण च नमस्तेनेति मन्त्रेण महामुद्राम् प्रदर्शयेत् दर्शे धेनु मुद्रां च नमो गोभ्य रुचानया पञ्च मुद्रा प्रदर्शाथ शिवमन्त्र जपं चरेत् शतरुद्रीय मन्त्रेण जपे द्वेद विचक्षणः तथा पञ्चाङ्गपाठं च कुर्याद्वेद विचक्षणः देवागात्विति मन्त्रेण कुर्याच्छम्भो विसर्जनम् इत्युक्त शिवपूजाया व्यासतो वैदिको विधि समासत च शृणुतः वैदिकं विधिमुत्तमम् रुचा सद्यो जातमिति मृदाहरणमाचरेत् वामोदेव येति च जलप्रक्षेपमाचरेत् अघोरेण च मन्त्रेण लिङ्गनिर्माणमाचरेत् सत्पुरुचाय मन्त्रेण आह्वानम् कुर्याद्यथाविधि संयोजये द्वेदिकायाम् ईशा न मनोनाहरम् अन्यत् सर्वं विधानं च कुर्यात् सङ्ख्ये पतः सुधि पञ्चाक्षरेण मन्त्रेण गुरु तथा कुर्यात् पूजां छोडचोपचारेण विधिवत् भवाय भवनाशाय महादेवाय धीमहि उग्राय उग्रनाशाय शर्वाय शशिमौलिने अनेन मनुना वापि पूजे शङ्करं सुधी सुभक्त्याच च भ्रमं त्यक्ता भक्त्यैव परदशिवः इत्यपि प्रोक्तमादृत्य वैदिक कर्मपूजनम् प्रोच्यन्त्यन्यविधि सम्यक् साधारणतया बिजा पूजा पार्थिवलिङ्गस्य सम्पृक्ता शिवनामभि तं शृणुद्धं मुनिश्रेष्ठा सर्वकामपदायिनीम् हरो महेश्वर शम्भु शूलपाणि पिनाकधृ शिवपशुपति चैव महादेव मृदाहरेण सङ्घट्ट प्रतिष्ठाह्वानमेव च स्नपनम् पूजनम् चैव क्षमस्वेति विसर्जनम् ओङ्कारादि चतुर्थ्यन्तैः नमो तैनामभिक्रमात् कर्तव्या च क्रिया सर्वा भक्त्या परमया मुदा कृत्वा न्यासविधिम् सम्यक् षडङ्गम् करयोस्तथा चरक्षरेण मन्त्रेण ततो ध्यानम् समाचरेत् कैलासपीठसनम् अद्य संस्थम् भक्त सनन्दादिभिरचमानम् भक्त तिलावानलमप्रमेयम् जयेतुमालिङ्गित विश्वभूषणम् जये नित्यम् महेशम् जये नित्यम् महेशम् रत्नाकल्पोज्वलाङ्गम् परशुमृगवराय भीतिहस्तं प्रसन्नम् पद्मासीनं समन्तात् सुतममरगणे व्याघ्रकृतिम् वसानम् विश्वाद्यं विश्वबीजम् निखिलभयहरम् पञ्चवक्त्रम् त्रिनेत्रम् इति ध्यात्वा सम्पूज्य पार्थिवम् लिङ्गमुत्तमम् जपेत् पञ्चाक्षरम् मन्त्रम् गुरो दत्तम् यथाविधि तुतेभिश्चैव देवेशम् सुवितप्रणमन्सुधि नानाविधाभिः विप्रेन्द्रा पठे त्वयि चतुरुद्रीयम् तथैसाक्षितपुष्पाणि गृहीत्वाञ्जलिनामुदा प्रासयेन् शङ्करम् भक्त्या मन्त्रे वेभि सुभक्तितः तावकस्तद्गुणप्राण सच्चित्तोऽहं सदा मृळ कृपा निधेति ज्ञात्वा भूषणात् प्रसीद मे अज्ञानाद्यदि वा जपं भूयादिकं मया कृतं तदस्तु सफलम् कृपया तव शङ्कर अहं पापी महान् पावनश्च भवान् महान् इति विज्ञाय गौरी यदि च सी तथा कुरु वेदे पुराणे सिद्धान्तै ऋषिभि विविधैरपि न ज्ञातोऽसि महदेव कुतोहं त्वां सदाशिव यथा तथा त्वदीयोऽस्मि सर्वभावे महेश्वर रक्षणीय स्वयाहं वै प्रसीद परमेश्वर इत्येवं चाक्षतान् पुष्पाणि आरोप्य च शिवोपरि प्रणमेद् भक्तित शम्भुवम् साष्टाङ्गम् विधिवन्मुदे स तत्प्रदक्षिणाम् कुर्यात् यथोक्त विधिना सुधि पुनस्तुत देवेशम् स्वतेभि च ततो विरैर्मम् कृत्वा प्रणमेत् शुचिः शुचिनम् व्रथि कुर्याद् विज्ञप्तिमादृत्य विसर्जन मथाचरेत् इत्युक्त्वा मुनिषा दूरा पार्थिवार्चा विधानतः भुक्तिरा मुक्तिरा चैव शिवभक्ति विवर्धिनी इत्यध्यायम् सुचित्तेन यः पठेत् सर्वपाप विशुद्धात्मा सर्वान् कामान् अवाप्नुयात् आयुरायोग्यगम् चैव यशस्वर्गमेव च पुत्रपौत्रादि सुखदम् आख्यानम् विधिमोत्तमम् इति श्रीशिवमहापुराणे प्रथमायाम् विद्येश्वरसंहितायाम् साध्यसाधनखण्डे पार्थिव शिवलिङ्गपूजाविधि वर्णनम् नाम विंशोध्याय हैौरीशंकरापणमस्तु